श्रीहरये नमः अथ चतुर्दशोऽध्यायः सहोवाच ययेषात्ममानिनां सत्वादिगुणविशेषविकल्पित कुशलाकुशलसमवहार विनिर्मित विवितदेहाबलिभिर्वियोग संयोगाद्यनादि संसारानुभवस्य द्वारभूतेन षठिन्द्रिय वर्गेण तस्मिन् दुर्गाद्भवत् असुगमे अध्व्या पतित ईश्वरस्य भगवतो विष्णोर्वसवर्तिन्यां मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरस्वदेह निष्पादिकर्मानुभवः श्मशानवत् अशिवतमायां संसाराठव्यां गतो नाद्यापि विफलबहुप्रतियोगे हस्तताभोपशमने हरिगुरुचरणारविन्द मधुकरानुपदवीम् अवरुन्ते यस्यामुखवा, एते षटिन्द्रियनामानः कर्मणा दस्यव तद्यता तद्यथा पुरुषस्य धनं यत्किञ्चित् धर्मौपैकम् बहु कृच्छ्रादिगतं साक्षात् परमपुरुषराधन लक्षणो योऽसौ धर्मस्थं तु साम्पराय उदाहरन्ती तद्धर्म्यं धनं दर्शनस्पर्शण श्रवणास्वादन अवघ्राण सङ्कल्पव्यवसाय गृहा ग्राम्योपभोगेन कुना तस्य अजितात्मनो यथा सार्थस्य विलुम्पन्ति अथ च यत्र कौटुम्बिका धारपध्यातयो नाम्ना कर्मणा वृकश्रुगाला एव अनिच्छतोऽपि गतर्यस्य संरक्षमाणम् मिषतोऽपि हरन्ति यथा ह्यनुवत्स्रम् कृष्यमाणम् अप्यधक्त बीजम् क्षेत्रम् पुनरेवावपनकाले गुल्म धृढ वीरोद्भेर्गह्वरमिव भवत्येव यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ट एष आवसतः तत्र गतो धं शमसकसमापसदैर्मनुजैशलभसकुन्ततस्कर मोषघातिपि उपरुध्यमान बहिःप्राणा क्वचित् परिवर्तमानोऽस्मिन् अध्वनिविद्याकामकर्मभी उपरक्तमनसा अनुपपन्नार्थं नरलोकं गन्धर्वनकरमुपपन्नमिति मिथ्या दृष्टि दत्र च क्वचित् आतबोधकनिभान् विषयान् तधावति पानभोजन व्यवायाति व्यसनलोलुपहा क्वचिच्चाशेषदोषनिषधनं पुरीशविशेषं तद्वर्णगुणनिर्मितमधीः सुवर्णमुभाधि सत् त्यग्निकामकातर इवोल्मुकपिशाशम् अतः कदाचिन्निवासपानीय द्रविणादि अनेकात्माजीवनाभिनिवेश एतस्यां संसारटव्याम् इतस्तध परिधावती क्वचित्यवाद्यपं ययप्रमधया आरोहमारोपितस्तत्काल रजसा रजनीभूतविव मतिर्न विजानाति क्वचित् सकृत् अवगतविषये वैतथ्यस्वयं पराभिज्ञानेन अभ्रंशित स्मृतिस्तयैव मरीचितो य क्वचित्तुलूक जिल्लीस्वनवत् अधिपरुषभसाटोपं प्रत्यक्षं परोक्षम् वारिपुराजकुलनिर्भत्से तेन अतिव्यथितकर्णमूलहृदयः स यथा दुग्धपूर्व सुकृतस्तथा करास्करकाकदुण्ढात्य द्रुमलता विसोढपानवत् उभयार्तशून्यद्रविणान् जीवन्मृतान् स्वयं जीवन्म्रियाणवुभतावति येगता गता असत्प्रसङ्गान् निकृतमतेर्भ्युदस्रोतस्खलनवत् उभयतोऽपि दुःकधं पागण्डम् अभियाति यथा तु परबाधयान्ध आत्मनेनोपनमति तथा हि पितृपुत्र बर्हिष्मतः पितृपुत्रान् वासखलु भक्षयति क्वचित् आसाद्यगृकन्धावभवत् प्रियार्थविधुरम् असुको दर्गम् सोघाग्निनादक्यमानो प्रशं निर्वेतम् उपगच्छति क्वचित् काल विषमिधराजकुल रक्षसा बहृत प्रियतमधना सुप्रमृतग इव विगतजीवलक्षण आस्ते <laughs> कदाचिन्मनोरोधो भगत पितृपितामहाद्य क्वचित् गृहाश्रमकर्मचोदनाधिभर गिरिमारुषमाणो लोकव्यसन कर्षितमना कण्टकसर्कराक्षेत्रं प्रविसन्निवसीदतीं क्वचिच्च दुःसहेन कायाभ्यन्तरवहन्निना गृहीतसार स्वकुटुम्भाय क्रुध्यति स एव पुनर्निद्रा जगर गृहीतोऽन्धे तमसि मग्नः शून्यारण्य इव चेते नान्यत्किञ्चन वेदसव इव अपविद्धः कदाचिद् भग्नमान दंष्ट्रो दुर्जनदन्तसुखैयलब्ध निद्राक्षणो व्यतीतहृदयेन अनुष्यमाण विज्ञानोऽनन्तकूपेन्धवत्पतति कर्हिस्मचित् काममधुलवान् विचिन्ध्वन् परधार भरत द्रव्याणि अवरुन्धानो राज्ञा स्वामिभैर्वा निहतः पतत्यपारे निरये अथ च तस्मादुभयधापि हि कर्मास्मिन्नात्मनः संसारवपनम् उदाहरन्ति मुक्तस्ततो यधिबन्धाद् देवदत्त उपाचिनत् तस्मा वैष्णेत्रन वस्थ क्वचिच शीतवाध्यने दैविक भौतिमी दशन प्रति अकलो दुरचिताषण आस्ते क्वचिन्मितो व्यवहर ये धनमन्येभ्यो वा अप्यपहरन् यत्किञ्चित्त्वा विद्वेषमेति वित्तसाढ्यात् अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुगधुः करागत्वेषभयाभिमान प्रमादोन्मातसोऽहमोहलोभवात्सर्ययिष्या अवमान शुद्विभासादि व्याधि जन्मजरामरणादयः क्वाभिदेवमायया सत्रिया भुजलतोपगूटः प्रस्कन्तविवेक विज्ञानो यद्विहारग्रहारम्भाकुल हृदयस्त अधाश्रयावसक्त सुत दुहितृ कलत्रभाषितावलोकविषेष्टिताभकृदकृदय आत्मानं जितात्मा परे अन्धे तमसि प्रहिणोति कदाचि ईशर से भगवत विष्णोचक्रात्त्मा द्विपराधाग कालोपल परिवर्तितेन वयसा रक्मसा हरत आब्रह्मतृणस्तम्भादीनां भूतानाम् अनिमिषतो मिषताम् वित्रस्तकृतयस्तमेवगीश्वरं कालचक्रनिजायुधं साक्षाद भगवन्तं यज्ञपुरुषम् अनादृत्य ेवता कङ्कघृत्र भगवडप्राया आर्यसमयपरिहृता साङ्केत्येन अभिधत्ते यदा पाखण्डिभि आत्म वञ्चितैस्तैरुरो वञ्चितो ब्रह्मकुलं समावसन्तेषां शीलम् उपनयनादि श्रौतस्मार्थ कर्मानुष्ठानेन भगवतो यज्ञपुरुषस्य आराधनमेव तद् अरोचयन् शूद्रकुलं भजते निगमाचारे शुद्धितो यस्य मिथुनीभावकुटुम्बभरणं यथा वा तत्रापि निरवरोत् स्वैरेण विकरनतिकृपणबुद्धेर् अन्योन्यमुखनिरीक्षणाधिना क्राम्यकर्मणैव विषमृतकालावतीः क्वचिद् द्रुमवदैः कार्तेषु गृहेषु रंस्यन्यथा वानरः व्यवायक्षणाः एवं मध्वनि अवरुन्धानो मृत्युगजभयात् तमसि गिरिगन्धरप्राये क्वचि सीतवादाध्यनेकधैविकभौतिकात्मीयानां दुःखानां प्रति निवारणे कल्पो विषण्ण आस्ते क्वचिन्मितो व्यवहरन् यत्किञ्चिद्धनम् उपयाति वित्तसाट्येन क्वचिक्षीणधनसय्यासनासनाधि उपभोकविहीनो यावत् अप्रतिलब्धमनोरथो भगता धानेम् अवसितमतिस्ततस्तनो अवमानादीनि जनानभिलभते एवं वित्तव्यतिशङ्क विवृद्धवैरानुबन्धोऽपि पूर्वासनया मिदवोद्वहति यथा बवहति एतस्मिन् संसाराध्वनिनाक्लेश उपसर्गभातित आपन्ना विपन्नो यत्रयस्तमुह भावेतरस्तत्र विसृज्य जातं जातम् उपादाय शोषन्मुह्यन् बिभ्यत् विवधन् ग्रन्थन् संहृष्यन् गायन्नह्यमानः साधुवर्जितो नैव वर्ततेऽध्यापि अथ आरब्ध यमध्वनः पारम् उपतिशन्ति यदिदं योगानुशासनं न वा अवरुन्धते यन्यस्तदण्डा मुनय उपसमल्शीला उपरात्मना समवगच्छन्ति यदभिधिगि भजयिनो यज्विनो ये राजर्षिं तु परं मृधे सयीरन्नस्यामेव ममेयमिति कृतवैरानुबन्धायां विसृज स्वयमुपसंहृताः कर्मवल्लीमवलम्भ्य तत पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकशार्धम् उपयाति एवम् उपरि गतोऽपि तस्येधम् उभगायन्ति आर्षभस्येह राजर्षेर्मनसापि महात्मनः नानु वर्त्मार्हती मशिके वगरुत्मतः यो दुस्त्यजान् धारसुतान् सुहृद्राज्यं हृदि स्पृशः जहौ युवैवमलवधुत्तमश्लोकलालसहा वा यो दुस्त्यजान क्षितिसुतस्वजनार्धधारान् प्राथ्यां श्रियं सुरवरे। सदयावलोकान् नैश्चन्द्रुपस्थदुचितं महता मधुद्वेट् सेवानुरक्तमनसा अभवोऽपि बल्गुः यज्ञाय धर्मपतये वितिनैपुणाय योगाय सांख्यशिरसे प्रकृतीश्वराय ारायणाय हरये नमाह् इत्युधारं हास्यन् मृगत्वमभियक् समुदा जहारितं भागवत सभाजितावधात् गुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनम् आयुष्यं धन्यं यशस्यं स्वर्गाभवर्ग्यं वा न शृणोति आख्यास्यधि अभिनन्दति च सर्वा एवासिष आत्मन आसास्तेन काञ्चन परतयति इति श्रीमद्भागवते महापुराणे पञ्चमस्तन्ते भरदोभाग्याने परोक्षविवरणं नाम च दुर्दशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्दा सद्गुरुनाथमगराजकी जय